श्रीमद्भागवत महापुराण दसमस्क अधकोनष्टध्याय भौमास का उद्धार और सोलह हजार एक सौ राजकन्याओं के साथ भगवान का विवाह राज भगवता भौमोय चाश्रिय एतदा चक्ष्व विक्रम सागधन श्रीशुकुवाच हित निन्द्रेण हितच्छत्रेण हितकुण्डलबन्धुना हितामराद्यस्थानेन ज्ञापितो भौमचेष्टितं सभार्यो गरुणारूढ प्राग्ज्योतिषपुरं जलौ गिरिदुर्गै शस्त्रदुर्गैर्जलाज्ञनिलदुर्गमं मृपाशायुतैर्धो घोरैर्दृढैः सर्वत आवृतम् गदया निर्विभेदाद्रिन् सस्यदुर्गाणि सायकै चक्रेणाग्निं वायुं नृपासां सताशिनां सङ्खनादीन यन्त्राणि षियानि मनश्विनां प्राकारं गदया गुर्व्यां निर्विम्भेदगदाधरः पाञ्चजन्यध्वनिं श्रुत्वा युगान्ताशनिभीषणम् मुरशयान उत्तस्थौ दैत्य पञ्चशिराजलात् त्रिशूलमुद्यम्य सुदृढनिरीक्षणो युगान्तसूर्यानलरोचिरुल्बः ग्रहं श्रीलोकीमिवं पञ्चभिर्मुखैरभ्यद्रवत्तार्चसुतं यथोरगः आविद्यशूलं तरसागरुत्मते निरस्य वक्त्रैर्व्यनदन्तपञ्चभि सरोदसि सर्वदि सोऽन्तरं महानापूरयन्नाण्डकटाहमावृणोत् तदा पतन् वैतसुखं करुत्मते हरिसरम्भ्यामभिन्नत्रिधो जदां मुखे सुतं चापि शरैर्ताडयन् तस्मै गतां सोऽपि मुञ्चत तामाम् पतन्तीं गदया गदामृधे गदाग्रजो निर्विभिते सहस्रशान्धा उद्यम्य बाहूणिभिधावतो जिनः स्थिरांसिचक्रेण जहारलीलयाम् व्यसूपपाताम्भसीकृत्तशेषो न कृत्तशृङ्गो द्विवेन्द्र तेजसां तस्यात्मजाया तस्मात्मजाः सप्त पतुर्वधातुराः प्रतिक्रिया मनसजि समुद्यताः ताम्रोऽन्तरिक्षश्रवणो विभावसून् वसूर्णभस्वानरुगुणश्च वृत्तं सप्तमः पीठं पुरस्कृत्य च मूपतिं मृधे भवमप्रयुक्ता निर्गन्धितायुधाः त्रायुञ्जतासाद्यसरा न शीनिगता शक्तेष्टिशूलान्यजितेरु नृषोर्मणाः तस्य स्रकूटं भगवान् शमार्गणैः अमुघवीर्य तुलशर्कत तानपीठमुख्यान् नियञ्जमक्षयं निकितशिरसोरिभुजाङ्घ्रिवर्मणः स्वानीकपानार्चितं चक्रसायकै तथा निरस्तान्नकोधराश्रितः निरीक्षतुर्मर्षण आश्रमन्मदै गजैपयोधिर्प्रभुवै निराक्रमत् दृष्ट्वा स भार्यं परिसितं। सितं सूर्योपरिष्टा सदन्दिघनं यथा कृष्णं स तस्मै व्यसिजन्थपोधास्ति सर्वे जुगुपद्मसं विभ्रतो तस् गदाग्रजो विजित्रवाजये निशितये चिले निकितबाहू ऋषिरोध्रविग्रहं चकारितर्शैवहता सुकुञ्जनं यानि योधै प्रयुक्तानि शस्त्रास्त्राणि कुरुद्वः हरिस्तानिम् अप्क्षिणन्तिक्ष्णैः शरैरेकैकशस्त्रिभिः उहमानसुवर्णेन पक्षाभ्यां निघ्नता गजान् गरुत्मता हन्यमानान् तुण्डपक्ष नखैर्गजाः सुर्मेवा विशन्नार्ता नरको युद्ध्युध्यत दृष्ट्वा विद्रावितं सैन्यं गरुणेनार्जितं शकं तम्भौम प्राहरच्छक्त्या प्रतिहतो यतः नाकम्पद्यया विद्धो मालाहति युद्विमहम् शूलं भौमोचितं हन्तुम् आददेवि तदोद्यमः तद्विसर्गात् पूर्वमेव नरकस्य शिरोहरिः अपाहरद्गजस्तस्य चक्रेण चूर्णे मीना शकुण्डलं चारुकिरीटभूषणं बभो पृथिव्यां पतितं समुज्ज्वलत् हाहेति साध्वेत्युषु सुरेश्वरा माल्यैर्मुकुन्दं विकिरन्त ततश्च भो कृष्णमुपेतकुण्डले प्रतप्तजां बुनदं रत्नभाश्वरे सवै जयन्त्या वनमालयार्पयन् प्राचेतसं क्षत्रमथो महामणिम् अस्तौ सदी दथ विश्वेशं देवी देवपरार्चितं प्राञ्जलिं प्रणता राजन् भक्तिप्रवणां